सङ्घमन्त्रः श्रीगुरुभ्यो नमः हरिः ॐ संगच्छध्वं संवदध्वं संवो मना आंसि देवा भागं यथा पूर्वे ए सञ्जानाम् उपासते समानो मन्त्रसमितिः समाधिः समानं मनः सह चित्तमे एषां समानं मन्त्रमभिमन्त्रैव समाने न वो हविषा आजुहोमि समाधिव आकूतिः समानाहृदयानि वः समानमस्तु वो मनो यथा आव सुसहा सती ॐ शान्तिः शान्तिः शान्तिः हरिः ओ